ेश्वर मोज्लभास्कर मिष्टमर वन्द्यम् मूर्तमशेश्वर मोज्वल भास्कर मिष्टमरनन्द्यम् वन्दे वेदनु गरित काञ्चन कामनि बम् वन्दे वेद तनुगुजितगरित काञ्चन कामीनि बन्द मूर्त महेश्वर मोज्ज्वल भास्कर ष्टमरनरवन्द्यम् मूर्तमहेश्वर उज्ज्वलभास्कर मिष्टमरनवन्द्यम् कोटिभानुकर दीत सिंहमौ कटितटकोऽपि नमा टकिनव अभिरवि हु कर्णाद प्रचण्ड ताण्डव अभिरवि हु कर्णादीङ्क प्रचण्ड ताण्डव महेश्वर मोज्वल भास्कर निष्ठमर नर वन्द्यम् मूर्त महेश्वर मोज्वल भास्कर निष्ठमर नर वन्द्यं वन्दे वेद काञ्चन कामिनि बन्दि वेदतनुगोजित गजित काञ्चन कामिनि बान्धम् मूर्त महेश्वर मोज्ज्वल भास्कर निष्ठमर नर वन्द्यम् मूर्तमहेश्वर मोज्ज्वलभास्कर निष्ठमर नरवन्द्यम् भक्तिमुक्ति कृपकटाक्षप्रेक्षण मगदलवितलनदक्षम् उक्तिमुक्ति कृपकटाक्ष प्रेक्षण मगदल विदलन दक्षं बालचन्द्रधर मिन्दुवन्दमिय नोमि गुरुविवेकानन्दम् बालचन्द्रधरमिन्दुवन्दमि नोमि मशेश्वर मोज्ज्वल भास्कर मिष्टमर न वन्द्यम् मूर्तमहेश्वर मोज्ज्वल भास्कर निष्टमर न वन्द्यं वन्दे वेदतनुमोजितगयित् काञ्चन कामिनि बान्ध मूर्त महेश्वर नोज्ज्वल भास्कर निष्ठमर नरवन्द्यं महूर्त Oh, my God.